श्रीमद्भागवत् महापुराणं दसंस्कन्ध ऐकसप्तति तमोऽध्याय गीतवादित्रघोषेण ब्रह्मघोषेण भूयसाम् अभ्याश प्राणाप्राणविवाजितः दृष्ट्वा विक्लिन्न कृष्णं स्नेहेन पाण्डवः चिरादृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः दूर्भां परिष्वज्य रमामलालयं मुकुन्दगात्रं नृपतिर्हता शुभ लेभे परां निमृत्यमश्रुलोचनोऽशित्यत्तनू विस्मृतलोकविभ्रमम् तं वातुलेयं परिरभ्यनिमृतो भीमस्मयन् प्रेम जवाकुलीन्द्रियजमौ किरीटी च सुहृत्तमं मुदा प्रविद्धबाष्पा परिरेभिरेत्युतम् अर्जुनेन परिस्वक्तो यमाभ्यामभिवादितः ब्राह्मणेभ्यो नमस्कृत्य विद्धेभ्यश्च यथार्हतः मानितो मानयामास कुरु सृञ्जयकैकेयान् सूतमागतगन्धर्वा वन्दिनश्चोपमन्त्रिणः मृदङ्गशङ्खपटहविना प्रणवं गोमुखै ब्राह्मणाश्चारविन्दाक्षं तुष्टवर्निनृतो जगुः एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः संस्तूयमानो भगवान् विभेशालङ्कृतं पुरं संसिक्तवर्त्मकरिणां मद्गन्धतोयै चित्रध्वजैः कनकतोरणपूर्णकुम्भै मिष्टात्मभिर्नवं दुकूलविभूषणस्रग गन्धैर्निभिर्मुञ्जु युवतीभिश्च विराजमानम् उद्दीप्तदीपबलभीप्रतिसद्य जात निर्यातधूपरुचिरं बिलसत्पताकुं मूर्धन्य हेमकलशैरजतोरुशिङ्गैर्जष्ठं ददर्श भवनैः कुरु राजधाम प्राप्तं निशम्य नरलोचनपानपात्रम् औसुक्यविश्रुं विश्लतिके सदुकूलबन्धा सद्यो विसृज्य गृहकर्मपतेश्च तल्पे द्रष्टुं यजुर्युवतय स्म नरेन्द्रमार्गे तस्मिन् सुसङ्कुले इभास्वरं तद्विपद्भिः कृष्णं सभार्यमुपलभ्य गृहाधिरूढा नार्यो विकर्य कुसुमयी मनसोपगुह्य सुस्वागतं विदधृस्मयं दीक्षितेन वजोत्रियपतिनिरीक्ष मुकुन्दपत्नी तारायतोडुपस्ता किं कार्यभूभिं कार्यमुभि यच्चक्षुषां पुरुषमौ लिरोरुदारहास लीलावलोककलयो शुभमातनोति तत्र तत्रोपसंगम्य पौरां मङ्गलपाडय चक्रु सपर्यां कृष्णाय श्रेणीमुख्या हतै न सह अन्तःपुरजनैः ससभ्रमै मुकुन्दफुल्लोचनैः ससभ्रमैरभ्युपेतः प्राभिसन्द्राजमन्दिरं पृथाभिलोक्यभ्रातृयं कृष्णं त्रिभुवनेश्वरं प्रीतात्मोत्थाय पर्यङ्का शस्नुषा परिसरस्वजे गोविन्दं गृहमालीय देवदेवे समादृतः पूजायां नाविदद्कृत्यं प्रमोदोपहतो निपः पितृष्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेभिवादनं स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः सस्र्वा सञ्चोदिता कृष्णा कृष्णपत्नेस्य सर्वशः आनर्चरुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा कालिन्दीं विद्रवृन्दां च सेव्यां नाग्नजितिं सतीम् अन्याश्चाभ्यागतायास्तु वाससन्मण्डनादिभिः शुकं निवासयामास धर्मराजो जनार्जनं ससैन्यं सानुगामात्यं शभार्यं च नवं नवम् तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः मोचयित्वामयं येन राज्ञे दिव्या सभा कृता उस कतिचिन्मासान् राज्ञ प्रियचिकीर्षयां विहिरन् रथमारुह्य फाल्गुनेन भटैर्वितः इति महापुराणे पारमहिषां शयितायाम् दशमस्कन्धे उत्तरार्धे कृष्णस्येन्द्रपस्थं गमनं नामैकसप्ततितमोऽध्याय